अथ एकोनाशीतितमोऽध्यायः शुक्र उवाच मम विद्या हि निर्द्वन्द्वा ऐश्वर्ये हि फलम् मम दैन्यम् साठ्यम् च नास्ति मे यदधर्मतः यः नरो नित्यम् अतिवादाम् स्तिक्षते देवयानि विजानीहि तेन सर्वमिदम् जितम् यः समुत्पतितम् क्रोधम् निगृह्णाति हयम् यथा स यन्तेत्युच्यते सद्भिः न योरश्मिषु अक्रोधेन निरस्यते देवयानि विजानीहि तेन सर्वमिदञ्जितम् यः समुत्पतितम् क्रोधम् क्षमयेह निरस्यति यथोरगस्त्वचम् जीर्णा स वै पुरुष उच्यते यः सन्धारयते योऽतिवादांस्तिक्षते यश्च तप्तो न तपति दृढम् सोऽर्थस्य भाजनम् यो यजेदपरिश्रान्तो मासि मासि शतम् समाः न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च तस्मादक्रोधने यज्ञः तपो दानम् महाफलम् न पूतो न तपस्वी च न यज्वान क्रोधस्य यो वशम् तस्य लोकद्वयम् भृत्यसुहृन्मित्रभार्या धर्मश्च सत्यता तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम् यत्कुमाराः कुमार्यश्च वैरम् कुर्युरचेतसः न तत्प्राज्ञो न कुर्वीत न विदुस्ते बलाबलम् देवयान् युवाच वेदाहन्तातबालापि धर्माणायदिहान्तरम् अक्रोधे चातिवादे च वेद चापि बलाबलम् शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यम् बुभूषत तस्मात् सङ्कीर्णवृत् तेषु वासो मम न रोचते पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च न तेषु निवसेत्प्राज्ञः श्रेयोर्थे पापबुद्धिषो ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा तेषु साधुषु वस् व्यम् स उच्यते सुयन्त्रितावरा नित्यम् विहीनाश्च धनैर्नराः दुर्वृत्ताः पापकर्माणः चाण्डालाधनिनोऽपि वा अकारणाद्ये द्विषन्ति परिवादं वदन्ति च न तत्रास्य निवासोऽस्ति पाप्मभिः पापताम् व्रजेत् सुकृते दुष्कृते वापि यत्र सज्जति यो नरः ध्रुवम् रतिर्भवेत्तत्र तस्माद्दोषम् न रोचयेत् वाग्दुरुक्तम् महाघोरम् दुहितुर्वृषपर्वणः मम मध्नातिहृदयम् अग्निकामयिवारणिम् न ह्यतो दुष्करतरम् मन्ये लोकेष्वपितृषो निःसंशयोऽविशेषेण परुषम् मर्म कृन्तनम् सुहृन्मित्रजनास्तेषु सौहृदम् न ी नः श्रीः पर्युपासते मरणम् शोभनन्तस्य इति विद्वज्जनाविदुः हवमानमवाप्नोति शनैर्नीतेषु सङ्गतः वाक्सायका वदनान्निष्पतन्ति यैराहतः शोतते रात्र्यहाणि शनैर्दुःखम् शास्त्रविषाग्निजालम् तान् पण्डितोऽनावृसजेत् परेषो संरोहति शरैर्विद्धम् वनम् परशुनाहतम् वाचा दुरुक्तम् बीभत्सम् न संरोहति वा क्षतम् इति श्रीमहाभारते आदिपर्वणि संभवपर्वि ययातप्याशीतमोध्याय या